गणेशपुराणम् उपासनाखण्डम् अध्यायं 54 फोर् पार्वत्युवाच तस्यां तु मूर्छितायां किमकुर्वन् जनास्तदा तन्मे विस्तरदो ब्रूहि हृदया मन्दनं पिदभ हिमवानुवाच तदा सर्वे नागरिका नाना वाक्य चाश्रूणि समादध्युर्नृपस्त्रियं जनावोचुः माधुरुत्तिष्ठमाशोकं कुरु पुत्रे न कुरुपुत्रे कृताः प्रेदं दहदि शोकाश्रुतस्माद्भर्तृहितं कुरु मर्त्येषु न हि दृष्टोऽस्ति चिरजीवी सुभानने यथा जीर्णं परित्यज्य वासोऽन्यद् गृह्यते जनैः वर्षापि देहिना तद्वत्त्वान्यद् अत्याश्चर्यमिदं भद्रे स्वयं मृत्युमुखे स्थितः शोचते मृतमपरं स्वयं मरणधर्मवान् स्वदेहेन वियोगं च न वेत्ति भाविनं जनः मदीयमन्यदे सर्वदैवकालवशे स्थितम् ब्रह्मादिस्थावरान्तं यद्विश्वं साग्धिचराचरं ज्ञात्वा तं नश्वरं शोकं त्यक्तोत्तिष्ठसुपुत्रिणि धर्मवान् पुण्यशीलस्ते भर्ता मुक्तिं ददो भवेद् जीवन्यदि भवेत्स्वर्गे तदा यास्यति अधिपुण्यान्मानवोऽपि यादिस्वर्गगदः पुनः अथवा परिपृच्छामो मुनिं कञ्चिदिहागदम् अधीतानागतविधं कथयिष्यति सोऽखिलम् अनन्तरं हि यत्कार्यं तत्सर्वं विदधामहे हिमवानुवाच एवं प्रबोधिता लोकैः क्षणमिन्दुमधीत्मदा आश्वस्ता सर्ववाक्येन प्रमुज्याश्रूणिवाससा विसर्जयामास तदा सर्वान् समागतान् त्यक्त्वा सौभाग्यचिह्नानि प्रभेदे कुशदां भृशम् रुदधीशो दधितस्तौ श्वसति मूर्च्छिदामुहुः ततो द्वादशवर्षान्ते नारदो दिव्यदर्शनः आजगामगृहं तस्याय धृक्षा विचरन्मुनिः दृष्ट्वा दं विललापाशु वदन्ती भर्तुचेष्टितम् दुःखं च कथयत्तस्मै जातं द्वादशवार्षिकं निशम्य रुदिदं तस्य हर्षयन्मुनिरब्रवीत् नारद उवाच क्वापि तिष्ठदि ते भर्तानदं शोचितुमर्हसि शिरच्छादय नीलेन वाससा कर्णभूषणे कर्णह्यो कुरु बाले त्वं बिभ्रदी कुङ्कुमं शुभं वलयानिजकरह्यो कण्डे मङ्गलसूत्रकं हिमवानुवाच सर्वज्ञस्य मुनेर्वाक्याद्विश्वस्था सत्यवादिनः तत्कालं सर्वमानाय्यकर्षिता सा तथाकरोद आकार्यं ब्राह्मणान् सर्वान् सम्पूज्य नारदं पुरा सम्पूज्य सकलांस्तास्तु ददौ दानन्यनेकशः वा दयामासवाद्यानि शर्करां च गृहे गृहे प्रशयामास च ददा हर्षदिन्दुमती शुभा वास् पुत्र ताम्बूलदानेन ददावाचां जनस्य सा प्रणिपत्य पुनर्देवं मुनिं नारदमादराद स्वभर्तृप्राप्तये पृच्छदुपायं राजकन्यका इन्दुमत्युवाच कुत्र तिष्ठति भर्ता कथं तिष्टदि वा मुने केनोपायेन वेतज्ञदर्शनं तस्य मे भवेत् अनुग्रसं कुरु मुने तमुपायं वदस्वमे व्रतं दानं तपोवापि दुःसाध्यमपि यद्भवेत् नारद उवाच व्रतं तु परमं तेहं कथयामि समासतः नभ परया मुदा नद्यां तडागे तड़ागे वाप्यानपूक वा स्ना प्रभातम गुर संकल्पूर्वक शुक्लवासगृहम गृन्मयी मूर्ति कुरिया चुर्भुजा सम्य गणेश मनोरमाम् उपचारैषोडशभिपूजयेत् स्थिरचेतसा एकान्नमेकभुक्तं वा स्वयं कुर्यात् प्रयत्नदः उपोषणं वा कुर्वीद यावद् भाद्रचतुर्धिका गीद वादित्र मृत्याद्रह्मणा चोजन महोत्सव प्रकुर्वीद विभवे स दिशोधने वम व्रदुशुभे भर् सह सी पादे नागकन्या नीविता शुभे सत्यं ब्रवी मिदे सत्ये, नान्यधा मम भाषितं हिमवानुवाजा इत्युक्ता तेन मुनिना व्रतं प्रारभदादराद गदे मुनौ नभोमासि दिनैः कदिभिरागदे द्विरदाननमूर्तिं साचकार चकार पार्थिवीं शुभाम् पूर्वोक्तविधिना पूजां चकारसु मनोहरां दिव्यगन्धैर्दिव्यवस्त्रैर्दिव्यैश्च कुसुमैरपि दिव्यैर्नानाविधैश्चैव नैवेद्यै फलकाञ्च नैः दीपाय पुष्पाञ्जलिभिश्च प्रक्रमैर्नदिभिस्तवैः तन्नामस्मरणैर्ध्यानैस्तोषयामास तं विभुं गीतवादित्र नित्याद्यैर्ब्राह्मणानां च भोजनैः फलमात्रं भयो भुक्त्वा चकारव्रतमुत्तमं नभशुक्लचतुर्थ्यादिचिरनष्टं प्रियाप्तये नारदस्य मुनेर्वाक्याद्यावद्भाद्र चतुर्थिका इति श्रीगणेशपुराणे उपासनाखण्डे इन्दुमदी नारदसंवादे चतुःपञ्चाशत्तमोऽध्यायः ओ